नापतिरण्डावद् दशगम् सकटासुरवत कथा बिजन्मर्षति ने तव प्रभो निमन्त्रित ज्ञातिवतो महीसुरा महानसस्त्वाम् सविदेदायसा परस्फुटदारु चटचटारव तत कर्णन संभ्रमश्रम प्रकम्पि वक्षो जबरा व्रजाङ्गना भवन्तमन्दर्तृषु समन्तदो विनिष्पदारुणदारुमद्यगम् किशोरः किम् किमभूदिति द्रदम् प्रदाव्यनन्दपसुभाष्य भूसुरा भवन्तमालोक्य यशोदयादृतम् समाश्वसन्नश्रुजलाद्रलोचना कस्कोनु नु कौदस्कुत एष विस्मयो विषङ्कटम् यच्च कटम् विपाटितम् न कारणम् किञ्चिदिहेदिते स्थिता स्वनासिका दत्तकरास्त्वदीक्षका कुमारकस्यास्य पयोदरार्थिन प्ररोदने लोलपदाम्बुजाहतम् मया मया दृष्टमनो तदा किञ्चित जानतामितं कुमारगाणामदि दुर्घटम् वच भवत्प्रभावा विदुरैरितीरितम् मनागि वा शङ्क्यत दृष्टपूतने प्रवालताम्रम् किमिदम् वतम् शतम् सरोजरम् यौ नुनुकरौ विरोजितो इति प्रसर्पत् करुणातरङ्गिदास त्वदङ्गमापस्पृसुरङ्गना मये सुतम् देहि जगत्पते कृपा तरङ्कपातात्परिपात मध्यमे इति स्म सङ्गृह्य पिता त्वदङ्गघम् मुहोर्मुकोष्ठिष्यति अनोनिलीन किल हन्तुमागता सुरारिरेवम् भवता विहिंसिता रजो दृष्टममुष्य तत्कथम् सशुद्ध सद्वे त्वयिलीन प्रभो निजैस्तत्र ततो दिविरादिपे विशेषतो लम्बित मङ्गलाक्षिषन् व्रजन् निजैर्बाल्य रसैर्विमोहयन् मरुत्पुरादिशरुजाम् जगीहि मे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे राम हरे राम राम राम हरे हरे